हरि ओं श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे त्रिसप्ततितमः सर्गः इन्द्रजितो ब्रह्मात्रेण वा नरसेनासहितयोः श्रीरामलक्ष्मणयोर्मूर्छा ततोक्षसपुङ्गवान्तान् देवान्तकादि त्रिशिरोतीकाय दक्षवर्णात् त्रयः तावशिष्टाय ते रावर्णाय त्वरिता शसन्तु ततो हतान् तान् सहसा निशम्ये राजा महाबाष्पदिताक्षे पुत्रक्षयम् भ्रातृवधम् च घोरम् विचिन्त्य राजा विपुलम् प्रदध्यौ ततस्तु राजानमुदीक्ष्य दीनम् शोकाणवेशम् परिपुप्लोवानम् तथर्षभो राक्षस राज सो नु तमिन्द्रजित्वा किमिदं बभाषे न तातमोऽहं परिगन्तुमर्हसे यत्रेन्द्रजी जीवति नैर्हृतेश नेन्द्रारिबाणाभ्यतो हि कश्चित् प्राणान् समर्थ समरेऽभि पातुम् पश्चाद्य रामं सह लक्ष्मणेन मद्वाननिर्भिन्न विकीर्णदेहम् गतायुषम् भूमितवेशयानम् शितैशरीराचित सर्वगात्रम् इमाप्रतीन्यां शृणुशक्रेत्रो सुनिश्चितं पौरुषदैव युक्ताम् अद्यैव रामं सन्तर्पयिष्यामि शरै रमोघै अद्येन्द्र वै वैश्रत विष्णुरुद्रे साध्या च वै, वै श्वानरचन्द्र सूर्या द्रक्षन्ति मे विक्रममप्रमेयम् विष्णुरिवो ग्रम् बलि यज्ञवाटे स एवम् उक्त्वा तु समारुरोहानिलतुल्यवेगम् रथं कर श्रेष्ठसमाधियुक्तम् समासाय महातेजा रथं हरिरथोपमम् जगाम सहसा तत्र यत्र युद्धम् अरिन्दम् तं प्रस्थितम् महात्मानम् अनुजग्मो महाबलः संहर्षमाणा बभूव धनुप्रवरपाणयः गजस्कन्ध गतः केचित् केचित् परमवाजिभिः व्याघ्रवृष्टिकमार्जार क्रोष्टैश्च भुजङ्गमयी वराहै श्वापदे सिंहै जम्बुकै पर्वतोपमयी काकहंसमयूरैश्च राक्षसा भीमविक्रमः प्रातः पचिश निस्त्रिंश परश्व परधरा भुषुण्डी मुद्गरा यष्टि शतग्नि परिघायुधा न शङ्ख निनदयि पूर्णे वीरीणां चापि निस्वने जगामत्रीदशेन्द्रारि राजिं वेगेन वीर्यवान् स शङ्ख शचिवर्णेन क्षत्रेण रिपुसूदनः रराज प्रतिपूर्णेन नभश्चन्द्रमसा यथा विद्यमानस्ततो वीरो हेमै हेम विभूषणः चारु चामन्मुख्ये च मुख्य सर्वधनुष्पद्मतां शत्रु दृष्ट्वा विनिर्यान्तं बलेन महतावतं राक्षसाधिपति श्रीमान् रावणः पुत्रमब्रवीत् तम् अप्रतीरथः पुत्रे त्वया वै वासभोजितः किम् पुनर्मानुषम् दृश्यम् न्यनेष्यसि राघवम् तथोक्तो राक्षसेन्द्रेण प्रत्यगृह्णन् महर्षि च ततस्तीन्द्रजितालङ्कार सूर्य प्रतिमतेजसा रराजा पतिवीर्येण गौरिवास्वतः सम्प्राप्य महतेज युद्धभूमिं मरिन्दमः स्थापयामास रक्षांसि रथं प्रति समन्ततः ततस्तु हुतभुक्तारम् हुतभुक् जुवे राक्षस श्रेष्ठो विधिवन् सहवे सहवेलाज सत्कारे माल्यगन्ध पुरस्कृतये जुवे पावकं तत्र राक्षसेन्द्र प्रतापवान् शस्त्राणि शरपत्राणि समिधोऽका लोहितानि च वासांसि र्ष्णाय संस्था स तत्राग्निं समातीर्य शरपत्रैः शे, च तोमरैः छागस्य कृष्णवर्णस्य गलम् जग्राह जीवतः सकृदेव समिद्धस्य विधूमस्य महाशिषः बहुभूस्तान् लिङ्गानि विजयं यान्य दर्शयन् प्रदक्षिणा वर्तशिख तप्त काञ्चन सन्निभः हविस्त्राहे स्वय पावकः स्वयमुत्थितः सोस्रमाहारयामासम् अस्त्र विशारदः धनुष्ठात्मा रथं चैव सर्वं तत्राभ्य मन्त्रयेत् तस्मिन् आहूयमाने स्त्री हूयमाने च पावके शार्कग्रहेन्दुनक्षत्रम् वितत्वा स नभस्थलम् स्वपावकम् पावकदीप्ततेजाय भूत्वा महेन्द्र प्रतिमप्रभवे स चाप्य बाणाशिरथाश्व सूतय खेन्तर्दधेत्मा नमचिन्त्य वीर्ये ततो हयरथाकिरणम् पदकधोभितम् निर्ययो राक्षसबलम् नर्दमानं युयुत्वया ते शरीर्बहुभि चित्रै तीक्ष्णवेगै अलङ्कृतै सोमरे अङ्कुशैश्चापि वानरान् जघ्नुराघवे रावणिस्तु ससंस्कृध्ये तान्निरीक्ष्य निशाचरान् दृष्टा भवन्तो युध्यन्तु वानराणाम् जिघासया ततर्थे राक्षसा सर्वे गर्जन्तु जयकाङ्क्षिणः अभ्यवर्षन्ततो घोरम् वानराञ्चरवृष्टिभिः स तु नालीकनारा चैः गदाभि मुसलैरपि रक्षोभि संवृतः सङ्ख्ये वानरान् विचकर्षः ते वद्यमाना समरे वानरा पादपायुधा अभ्यवर्षन्त स सा रावणीं शैलपादपै इन्द्रजितु तदा क्रुद्धो महातेजा महाबलः वानराणां शरीराणि व्यधमय रावणात्मजः शरेर्णैकेन च हरिन् नव पञ्च च सप्त च बिभेद समरे क्रुद्धो राक्षसान्तं प्रहर्शयन् सचरे सूर्यसङ्काशे शातकुम्भ विभूषणै वानरान् समरे वीर ब्रह्ममाथ सुदुर्जयः ते भिन्नगात्रा गात्रा समरे वानराशरपीडिताः पेतुर्मथित सङ्कल्पा सुरेरेव महासुर ते तपन्तमिवादित्यं घोरैर्बाणभस्तिभिः अभ्यधावन्त संक्रुद्ध संयुगे वानर ततस्तु वानरः सर्वे भिन्नरेहाविचेतसः व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षितः रामस्यार्थे पराक्रम्य वानरत्यक्तजीवितः नर्दन्तस्ते निवृत्तासु समरे स शिलायुधाय ते द्रुमैः पर्वताघ्रै च शिलाभिश्च प्रभङ्गमः अभ्य वर्षन्तसमरे रावणीं समवस्थितः ते द्रुमाणां शिलानां च वर्षं प्राणः व्यपोहत महातेजा रावणी समितिञ्जये ततः पावकसङ्काशे शरीराशि विक्षोपमयि वानराणामनेकानि बिभेद समरे प्रभु अष्टादश शरे तीक्ष्णैः सविध्वा गन्धमादनम् विव्याध सप्तभिस्तु महावीर्यो मन्दं मर्मविधारणैः पञ्चभिर्विशिखैजैव गजं विव्याथ संयोगे जाम्बवन्तं तु दशभि नीलं त्रिंशद्भिरेव च सुग्रीवं वृषभं चैव सौङ्गरं द्विविधं तथा घोरे दत्तवरे चिघ्ने निष्प्राणानङ्करोत्तथा अन्यपि तथा मुख्यान् वानरान् बहुभीचरे अर्धयामास संक्रुद्धे कालाग्निरिव मूर्च्छितः सचरी सूर्यसङ्काशे सुमुक्तये शीघ्रगामिभिः वानराणाम् अनेकानि निर्ममन्थ महरणे आकुलाम् वानरिंसेन शरजालेन पीडिताम् वृक्ष सह पर्या प्रीत्या ददर्श क्षतजोक्षिताम् पुनरेव महापेजा राक्षसेन्द्रात्मजो बलि संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम् ममर्देवानदानेकम् परिशस्तिन्द्रजित् बलि स्वसैन्यमुत्रुज समेत्य तूर्णम् महाहवे वा नवाहिनीषु अदृश्यमानय चल मृग्रम् ववर्ष नीलाम्बुधरो यथाम्बू ते शक्रजिद्बाणविचीर्णदेहाय मायाः ताभीश्वरमुन्न दन्त रणेरिपेतुर्हर्योद्रिकल्पा यथेन्द्र वज्राभियतो न केन्द्र ते केवलं चन्ददृशु निश्चिताग्राम् बाणान्ध्रणे वा माया विगूढम् च सुरेन्द्रशत्रुम् न चात्र तम् राक्षसमप्यपश्यन् ततस्त रक्षोऽधिपतिर्महात्मा सर्वादिशो बाणगणेशिताग्रे प्रच्छादयामास रविप्रकाशै विदारयामास च वा नरेन्द्रम् स्वशूल निज परेश्वराधानि व्याविध्यदीप्तानलसब्रह्माणि सविस्थूलिङ्गोज्ज्वल पावकानि वर्षतीव्रं प्लवगेन्द्र सैन्ये ततोज्ज्वलन सङ्गासे णै वानरयूथपः ताडिता शक्रजिद्बाणे प्रफुल्ला इव किञ्चुकः तैन्योन्यम् अभिसर्पन्तो निनदन्ते च विस्सर्वन् राक्षसेन्द्राश्रनिर्मिर्भि निर्भिन्नापेतुर्वानर शय उदीक्ष्यमाणा गगनम् केचिन्नेत्रेषु ताडिताः चरिर्विवेशु अन्योन्यम् पेतुश्च जगतीतले हनुमन्तं च सुग्रीवम् अंगदं गन्धमादनम् जाम्बवन्तम् सुषेणम् च वेगदर्शिनमेव च मन्दं च द्विविदं नीलम् गवाक्षं गवयम् तथा केसरीम् हरिलोमानम् विद्युदष्टम् च वानरम् सूर्याननं ज्योतिर्मुखम् तथा दधिमुखं हरिम् पावकाक्षं नलं चैव कुमुदं चैव वानरं प्रासे शूलेशितिर्माणे इन्द्रजिन् मन्त्रसंहितये विव्याध हरिचार्दूलान् सर्वान् तान् द्राक्षसोत्तमः स्वैकदाभि हरियूथ निर्भिद्य बाणे तपनीय वर्णे ववर्ष रामं चरवृष्टिझारे स लक्ष्मणं भास्करश्मिकल्पे स बाणवर्षेरभिवृष्यमाणो धारान्निपातान्निवता न चिन्त्य समीक्षमाण परमाद्भुत श्री रामसदा लक्ष्मणमित्युवाच असो पुन असौ पुनर्लक्ष्मलक्षसेन्द्रो ब्रह्माश्रमाश्रित्य सुरेन्द्रशत्रो निपातयित्वा हरिसैन्यमस्मान् शितैश्चरे हर्दयति प्रसक्तम् स्वयम्भुवा दत्तवरो महात्मा समाहितोन्तर्हित भीमकाये कथम् नु शक्यो युधि देहो निहन्तुमध्येन्द्रजित्युद्यतास् मन्ये स्वयं भूर्भगवान् चिन्त्य तस्यैतदसम् प्रभव च योऽस्य बाणावपातम् त्वमिहाद्य धीमन् मया स व्यग्रमाणा स स्व प्रच्छादय ते चै राक्षसेन्द्र सर्वादिश एतच्च सर्वम् पतिताग्रे शूरम् न भ्राजते वा नरसाराजसैन्यम् तु दृष्ट्वा पतितो विसन्यो निवृत्त युद्धो हत हर्ष रोषो ध्रुवम् प्रवेक्ष्यमरारिवासम् असु समासाद्यरणाग्र्य लक्ष्मीम् बभूवतु तत्र नैतदा विशस्तौ स तौ तत्र विषादयित्वा नश्चाद्युधि राक्षसेन्द्र ततत्र रावानसैन्यमेवम् रमं च सङ्ख्ये सह लक्ष्मणेन विषादयित्वा सहसा विवेशे पुरीं दशग्रीवभूयाभिगुप्ताम् संस्थयमान सु यातु धाने पित्रे च सर्वं रचितोऽभ्युवच वित्यार्शी श्रीमद् रामायणे वाल्मीकि अधिकावे युद्धकाण्डे श्रीसप्ततितमः सर्ग श्री सीतारामचन्द्रार्पणमस्तु